मुद्गलपुराणं खण्डं नयन् अध्यायं 28. ऐट् महोदरचरितमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच ब्राह्मणो वन्द्यभावेन पीडितः कर्मणा पुरा नामना नाम्ना शम्भुरिदीरिदः नानोपायाकृतास्तेन वान्ध्यदोषप्रसारिणः तथापि तस्य पुत्रो वा पुत्री द्विज बभूवन ततोदिदुःखसंयुक्तो गौतमं स जगामः सस्त्री कः पुत्रकामार्थं तं महामतिं गौतमेन मुनीन्द्रेण सकृदशम्भुरावसत सेवार्थं स्वगुरोस्तत्र यत्नयुक्तो बभूवः ये कदा सुखमासीनं गौदमं तं च भक्तिदः जगादपुत्रप्राप्त्यर्थं वचनं स्वहितावहम् शम्भुरुवाच नानायत्ना कृता स्वामिन् पुत्रप्राप्त्यर्थमादराद् लभ्यते नैव सन्तानो मया किं वदकारणं येनोपायेन मे पुत्रो भविष्यति महामदे तमुपायं वद स्वामिन् त्वं गुरुर्मे पराकाष्ठ परं त्वत्त्वो न विद्यते तारयस्वमहाभागवान्ध्यदोषसमन्वितं तस्य तद्वचनं श्रुत्वा तं जगाद महामुनिः गौधम सर्वतत्त्वज्ञशम्भुं दुःखसमन्वितं गौतम उवाच मा कुरुष्व चिन्तां तव पुत्राद्विजोत्तम भविष्यन्दित्रयप्राज्ञा वेदज्ञा गणपप्रियाः शृणुत्वमौद्गलं मत्तः सर्वसिद्धिप्रदायकं तेनानन्दभवस्तं ते पापं नश्ये च तत्क्षणाद पुण्यराशिस्वयं साक्षात् भविष्यसि च तारकः अन्येषां नात्र सन्देहसर्वसिद्धियुतस्तथा अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतो भविष्यसि तिष्ठात्र ज्येष्ठमासेहं कथयिष्यामि मौद्गलम् एवं तस्य वच श्रुत्वा हर्षयुक्तो बभूवः सुशीलया स्त्रिया सार्धं तत्रैवं संस्थितो भवत ततः स्वल्पे गते काले ज्येष्ठमासः समाययौ अन्ये मुनिगणास्तत्र श्रवणार्थं समाययुः तान् दृष्ट्वा विधि युक्दतया सर्वे श्रोतारस्तत्परा बभुः ज्येष्ठे शुक्ले प्रतिपदि गौतमो योगिनां वरः समारभत्स हर्षेण मौद्गलं सर्वसिद्धिदं व्याख्यां चकार सर्वज्ञो मौद्गलस्य यथार्थतः तच्छ्रुत्वा विस्मिता सर्वे बभूवु श्रवणेरताः नित्यं नियमसंयुक्ताः शुश्रुवुर्भक्तिसंयुताः तत्र कस्मिन् दिने विप्र बभूव परमाद्भुतं गर्दभस्तत्र दैवेन ह्याययौ त्वदिदुःखितः ज्वरेण पीडितोऽत्यन्तं दूरे तस्थौ महामुने शुश्रावमौद्गलस्यैव श्लोकं ज्ञानविवर्जितः पीडाहीनो बभूवापि पी। तत्र किञ्चित् स रासभः हृदासमन्वितो तस्थौ श्रवणलालसः तदो गौतमविप्रेण समाप्तं तत्कृतं मुदा सर्वे स्वस्वक्रियं चक्रुः पुनः प्रातः गर्दभो दुःखहीनः स बभूवे तत्क्षणान्मुने स ययौ स्वेच्छयायुक्तकालवेगान् ममा रसः तस्मिन्काले च तम् नेतुम् गाणेशाः प्रययुर्मुदा तम् गृह्य ब्रह्मभूतं ते चक्रुश्रवणपुण्यतः दृष्ट्वा देवविप्राद्या स्वर्गस्था विस्मयं ययुः अधो शृणु महाभागगौतमो हर्षनिर्भरः आषाढ्यां पूर्णिमायां स समाप्तं तच्चकारः द्विजाध्यैः सप्रतिपदिचक्रे वैपरणं पुरा सर्वे कर्षयुधास्तं ते नत्वा स्वस्वाश्रमं ययुः शम्भुः जगामस्वाश्रयं तदः गणेशमभजन् ज्ञात्वा योगवबुर्धरम् ततः स्वल्पे गते काले सुशीला गर्भसंयुधा बभूवतां प्रदृश्यैवा भवच्छम्भुः सुविस्मितः ततः शुभे मुहूर्ते पुत्रमुत्तमं सर्वलक्षणसंयुक्तं सुधा एवं त्रयो भवन् वेदज्ञान् सर्वमन्यांश्च गाणपत्यपरायणान् तान् दृष्ट्वा विस्मितः शम्भोगुरुं सस्मारगौतमं मौद्गले तत्परसोऽपि बभूवे नित्यमादराद अन्दे विघ्नेश्वरं प्राप तल्लीनप्रबभूवः नानाजनागणेशानां रेभिरे मौद्गलस्य च श्रवणेन च यदत्ते कथितं विप्रज्येष्ठात् सार्धैकमासके मौद्गलश्रावणस्यैव माहात्म्यं स्वल्पभावदः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे योगजरिदे योगजरिते मुद्गलदक्षसंवादे महोदरचरिदमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ओम्